अथैकोनषष्टितमः सर्गः तस्मिन् हते राक्षस सैन्यपाले प्लवङ्गमाना मृषभेण युद्धे भीमायुधम् सागर वेगतुल्यम् विदुद्रुवे राक्षस राजसैन्यम् गत्वा तु रक्षोऽधिपतेः शशम् सुसेनापतिम् पावकसूनुशस्तम् वचनं निशं वचनम् निशम्य रक्षोऽधिपः क्रोधवशम् सङ्ख्ये प्रहस्तम् निहतम् निशम्यक्रोधार्दितः शोकपरीतचेताः उवाच तान् राक्षसयूथमुख्यानिन्द्रो यथा निर्जर यूथमुख्यान् नावज्ञारिपवे कार्यायैरिन्द्रबलसादनः विचारयन् स्वयमेव गमिष्यामि रणशीर्षम् तदद्भुतम् अद्य तद्वा न च सह निर्दहिष्यामि बाणौघैर्वनम् दीप्तैरिवाग्निभिः अद्य सन्तर्पयिष्यामि पृथिवीम् कपिशोणितैः स एवमुक्त्वा ज्वलन प्रकाशम् प्रकाशमानम् वपुषाज्ज्वलन्तम् समारुरोहामर राजशत्रुः स शङ्खभेरी प्रणव प्रणादैरास्फोटित क्ष्पेडित सिंहनादैः पुण्यैस्तवैश्चापि सुपूज्यमानस्तदाय यौ साशनैः पावक बभो वृतो राक्षस राजमुख्यो भूतैर्वृतो रुद्र इवामरेशः ततो नगर्याः सहसा महौजा निष्कम्य तद्वानर सैन्यमुग्रम् महार्नवाभ्रस्तनिदम् पादपशैलहस्तम् तद्राक्षसानीकमति विभीषणम् शस्त्रभृताम् वरिष्ठमुवाच सेनानुगतः पृथुश्रीः नानापताका ध्वज छत्रजुष्टम् प्रासासिशूलायुध शस्त्रजुष्टम् कस्येदमक्षोऽभ्यमभीरुजुष्टम् सैन्यम् महेन्द्रोपमनागजुष्टम् ततस्तु शशंस बलप्रवेकम् महात्मनाम् राक्षस पुङ्गवानाम् योऽसौ गजस्कन्धगतो महात्मा न बोदितार्कोपमताम्रवक्तः सङ्कम्पयन्नागशिरोऽभ्युपैतिह्यकम्पनम् त्वेन रथस्थो मृगराजकेतुर्धुन् बन्धनुः शक्रधनुः प्रकाशम् करीवभात्युग्रविवृत्तदंष्टस्य इन्द्रजिन्नाम वरप्रधानः यश्चैष विन्ध्यास्तमहेन्द्रकल्पोऽधम् वीरथस्थोति रथोऽति वीरः विस्फारयञ्चापमतुल्यमानम् नाम्नातिकायोऽति विवृद्धकायः योऽसो न वार्कोदितताम्रचक्षुरारुह्य घण्टानि नदप्रणादम् गजम् खरम् गर्जति वै महात्मा महोदरो नाम स एष वीरः योऽसौ हयम् काञ्चन चित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् प्रासम् समुद्यम्य मरीचिनद्धम् पिशाच एषो शनितुल्यवेगः यश्चैष शूलम् निशितम् प्रगृह्य विद्युत्प्रभम् किङ्कर वज्रवेगम् वृषेन्द्रमास्थाय शशिप्रकाशमायाति योऽसौ त्रिशिरायशस्वी असौ च जीमूत निकाशरूपः कुम्भः पृथिव्यूढ सुजातवक्षाः समाहितः धनुर्विधुन्वन् यश्चैषजाम्बूनदवज्रजुष्टम् आयाति रक्षो बलकेतु बलकेतुभूतो योऽसौ निकुम्भोऽद्भुत घोर कर्मा यश्चैष चापासि शरौघजुष्टम् पताकिनम् पावक दीप्तरूपम् कथम् समास्थाय विभात्युदग्रो नरान्तकोऽसौ नग शृङ्गयोधी यश्चैष नानाविध भूतैर्वृतो भाति विवृत्तनेऽत्रैर्योऽसौ सुराणामपि दर्पहन्त यत्रैतदिन्दुप्रतिमम् विभातिच्छत्रम् सितम् सूक्ष्मशलाकमग्र्यम् अत्रैष रक्षोऽधिपतिर्महात्पा भूतैर्वृतो रुद्र इवावभाति असौ किरीटी चलकुण्डलास्यो महेन्द्र वैवस्वत दर्प हन्ता रक्षोऽधिपः सूर्य इवावभाति प्रत्युवाच ततो रामो विभीषणमरिन्दमः अहो दीप्तमः तेज रावणो राक्षसेश्वरः आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः न व्यक्तम् देवदानवीराणाम् वपुर्नैवम् विधम् भवेत् यादृशम् राक्षसेन्द्रस्य वपुरे तद्विराजते सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः सर्वे दीप्तायुधरा योधास्तस्य महात्मनः विभाति रक्षो राजोऽसौ प्रदीप्तैर्भीमदर्शनैः भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः दिष्ट्यायमद्य पापात्मा मम दृष्टिपथम् गतः अद्य क्रोधम् विमोक्ष्यामि सीताहरणसम्भवम् एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ततः स रक्षोऽधिपतिर्महात्मा रक्षांसितान्याः महाबलानि द्वारेषु चर्याग्रह गोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः इहागतम् माम् सहितम् भवद्भिर्वनौकसच्छिद्रमिदम् विदित्वा शून्याम् पुरीम् दुष्प्रसहाम् प्रमथ्य प्रदर्शयेयुः सहसा समेताः विसर्जयित्वा सचिवाम्स्ततस्ताम् गतेषु रक्षस्सु यथा नियोगम् यदारयद्वानरसागरौघम् महाशशः पूर्णमिवार्णवौघम् तमापतन्तम् सहसा समीक्ष्य दीप्तेषु चापम् युधि राक्षसेन्द्रम् महत्समुत्पाट्य तच्छैल शृङ्गम् बहुवृक्ष सानुम् प्रगृह्य चिक्षेप निशाचराय तमापतन्तम् सहसा समीक्ष चिच्छेद बाणैस्तपनीय पुङ्खैः तस्मिन् प्रवृद्धोत्तम सारु वृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् महाहि कल्पम् समादधे राक्षस सतम् गृहीत्वा निलतुल्य वेगम् स विस्फुलिङ्ग ज्वलन प्रकाशम् बाणम् महेन्द्राशनि तुल्य वेगम् चिक्षेप सुग्रीव वधाय रुष्टः ससायको रावण बाहुमुक्तः शक्राशनि स सायकार्तो विपरीत चेताः कूजन् पृथिव्यान्यपपात वीरः तम् वीक्ष्य भूमोपतितम् विसञ्ज्ञम् ने दुः प्रहृष्टा युधि ततो गवाक्षो गवयः सुषेणस्त्वथर्ष भो ज्योतिमुखो नलश्च शैलान् समुत्पाट्य तेषाम् प्रहारान् स चकारमोघान् रक्षो दिपो बाणशतैश्चिताग्रैः तान् वानरेन्द्रान् अपि बाणजालैर्बिभेदजाम्बूनद चित्रपुङ्खैः ते वानरेन्द्रास्त्रिदशाणैर्भिन्नानि पेतुर्भुवि भीमकायाः भी ततस्तु तद्वानरसैन्यमुग्रम् ते मध्यमानाः पतिताश्च वीराणानुद्यमाना भय शल्यविद्धाः शाखा मृगा सायकार्ता जग्मुः शरण्यम् शरणम् स्मरामम् ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम तम् लक्ष्मणः उवाच रामम् परमार्थयुक्तम् काममार्यसुपर्याप्तो वधायास्य दुरात्मनः विधमिष्याम्यहम् चैतमनुजानीहि माम् विभो तमब्रवीन्महातेज रामः सत्यपराक्रमः गच्छयत्वपरश्चापि भवलक्ष्मणसंयुगे रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय चक्षुषा धनुषात्मानम् गोपायस्व समाहितः राघवस्य वच श्रुत्वा सम्परिष्वज्य पूज्य च अभिवाद्य च रामाय ययौ सौमित्रिराहवे स रावणम् वारणहस्त प्रच्छादयन्तम् शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् तमालोक्यमहातेजा हनूमान् मारुतात्मजः निवार्य शरजालानि विदुद्रावस रावणम् रथम् तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् धीमान् हनूमान् वाक्यमब्रवीत् देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः अवध्यत्वम् त्वया प्राप्तम् वानरेभ्यस्तु ते भयम् एष मे देहे भूतात्मानम् चिरोषितम् श्रुत्वा हनूमतो वाक्यम् रावणो क्षिप्रम् प्रहरनिःशङ्कम् स्थिराम् कीर्तिमवाप्नुहि ततस्त्वाम् ज्ञातविक्रान्तम् नाशयिष्यामि वा नर रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् प्रहतम् हिमया पूर्वमक्षम् तव सुतम् स्मर एवमुक्तो महातेज रावणो राक्षसेश्वरः आजघानानि लसुतम् तलेनो रसि सतलाभिहतस्तेन च चाल स्थितो मुहूर्तम् तेजस्वी स्थैर्यं कृत्वा महामतिः आजघा न च ततस्तेनाभिहतो स्थलेनैवामरद्विषम् ततः सतेनाभिहतो वानरेण महात्मना दशग्रीवः यथा भूमितले चलः सङ्ग्रामेतम् तथा दृष्ट्वा रावणम् तलताडितम् ऋषयो वानराः सिद्धाने दुर्देवाः सहासुरैः अथाश्वस्य महातेज रावणो वाक्यमब्रवीत् साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः रावणेनैव मुक्तस्तु मारुतिर्वाक्यमब्रवीत् धिगस्तु मम वीर्यस्य यत्त्वम् जीवसि रावण सकृत्व प्रहरेदानीम् दुर्बुद्धे किम् विकथसे ततस्त्वाम् मामको मुष्टिर्नयिष्यति अमक्षयम् ततो मारुतिवाक्येन कोपस्तस्य प्रज्वले संरत्नयनो यत्नान्मुष्टिमावृत्य दक्षिणम् पातयामास वेगेन वानरोरसि वीर्यवान् हनूमान् वक्षसि पुनः पुनः विह्वलम् तु तदा दृष्ट्वा हनूमन्तम् महाबलम् रथेनातिरथः शीघ्रम् नीलम् प्रति समभ्यगात् राक्षसा नामधिपतिर्दश ग्रीवः प्रतापवान् पन्नग प्रतिमैर्भीमैः परमर्माभिभेदनैः शरैरादीपयामास नीलम् हरिचमूपतिम् सशरौघ समायस्तो नीलो हरिचमूपतिः करेणैकेन शैलाग्रम् हनुमानपि तेजस्वी समाश्वस्तो महामनाः विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् नीलेन सह संयुक्तम् रावणम् राक्षसेश्वरम् अन्येन युध्यमानस्य न युक्तमभिधावनम् रावणोऽथमः तेजास्तम् शृङ्गम् सप्तभिः शरैः आजघानसुतीक्ष्णाग्रैस्तद्विकीर्णम् पपातः तद्विकीर्णम् गिरे शृङ्गम् दृष्ट्वा हरिचमोपतिः कालाग्निरिव जज्ज्वालकोपेन परवीरः सोष्वकर्णद्रुमाञ्छालांश्चूतांश्चापि सुपुष्पितान् अन्यांश्च विविधान् वृक्षान् नीलश्चिक्षेपसंयुगे सतान् वृक्षान् समासाद्यप्रतिचिच्छेद रावणः शरवर्षेण पावकिम् अभिवृष्टश्च रौघेण मेघेनेव महाचलः ह्रस्वम् कृत्वा ततो रूपम् ध्वजाग्रे निपपातः पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् जज्वालरावणः क्रोधात् ततो नीलो ननाद च ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तम् हरिम् लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः रावणोऽपि महातेजः कपिलाघव विस्मितः अस्त्रमाहारयामास दीप्तमाज्ञेयमद्भुतम् ततस्ते चुकृशुरु हृष्टा लब्धलक्षाः प्लवङ्गमाः नीललाघव सम्भ्रान्तम् दृष्ट्वा रावणमाहवे वानराणाम् च संरब्धो रावणस्तदा सम्भ्रमाविष्टहृदयो न आग्नेयेनापि संयुक्तम् गृहीत्वा रावणः शरम् ध्वजशीर्षस्थितम् नीलमुदै क्षतनिशाचरः ततोऽब्रवीन् महातेजा रावणो राक्षसेश्वरः कपेलाघवयुक्तोऽसि मायया परया सह जीवितम् खलु रक्षस्व यदि शक्तोऽसि वानरा तानि तान्यात्मरूपाणि सृजसि त्वमनेकषः तथापि त्वाम् मया मुक्तः सायकोऽस्त्र प्रयोजितः जीवितम् परिरक्षन्तम् जीविता भ्रंशयिष्यति एवमुक्त्वा निर्दह्यमानः सहसा सपपातमहीतले पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा जानुभ्यामपतद्भूमौ न तु प्राणैर्वियुज्यता विसञ्ज्ञम् वानरम् दृष्ट्वा दशग्रीवो रणोत्सुकः रथेनाम्बुदरादेन सौमित्रिमभिदुद्रुवे आसाद्यरणमध्येतम् वारयित्वा धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान् तमाहसौमित्रिरदीन सत्त्वो विस्फारयम् तम् धनुरप्रमेयम् अवेहि मामद्य निशाचरेन्द्रणवाणरांस्त्वम् प्रति योद्धुमर्हसि स तस्य वाक्यम् च निशम्य राजा आसाद्य सौमित्रिमुपस्थितम् तम् रोषान्वितम् वाचमुवाच रक्षः दिष्ट्यासि मे विपरीत बुद्धिः अस्मिन् क्षणे यास्यसि मृत्यु लोकम् संसाध्यमानो मम बाणजालैः तमाः सौमित्रिरविस्मया राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृताम वरिष्ठा जानामि वीर्यम् तव राक्षसेन्द्रबलम् प्रतापम् च पराक्रमम् च अवस्थितोऽहं शरचापपा निरागच्छ किम् मोघ विकत्थनेन स एव मुक्तः कुपितः सर्ज रक्षोऽधिपः सप्त शरान् तान लक्ष्मणः काञ्चन चित्रपुङ्खैश्चिच्छेदबाणैर्निशिताग्रधारैः तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्त भोगानि क्षुरार्धचन्द्रोत्तम कर्णि भल्लैश्वरांश्च चिच्छेदन चुक्षुभे च स बाणजालान्यपि तानि तानि मोघानि पश्यन् स्त्रिध सारिराजः वि ये सन्धाय चापेज्वलन प्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय सतान प्रचिच्छेद हि राक्षसेन् दर्शिताञ्छन् लक्ष्मण मा जघाना शरेण कालाग्नि समप्रभेण स्वयम्भुदत्तेन ललाट देशे स लक्ष्मणो रावण सायकार्तश्च चालचापम् शिथिलम् प्रगृह्य पुनश्च सञ्ज्ञाम् प्रति लभ्य कृच्छ्राच्चिच्छेद चापम् त्रिदशेन्द्रशत्रोः निकृत्त चापम् त्रिभिराजघानबाणैस्तदा दाशरथिश्चिताग्रैः स सायकार्तो विचचाल जग्राह शक्ति स्वयं उग्रशक्ति स्वयं भूदत्ता शु सधूमल सन्नीका मित्रासना संयति वरा चिक्षेप शक्ति तरसा ज्वलती सौमित्रस राष्ट्रनाथ हैी भरताजोस्त्राण हु कल तथापि सा तस्य विवेश शक्त्यर्भुजान्तरम् दाशरथेर्विशालम् सशक्तिमाञ्छक्ति समाहतः सञ्ज्ज्वाल भूमौ स रघु प्रवीरः तम् विह्वलन्तम् सहसाभ्युपेत्यजग्राह राजातरसा भुजाभ्याम् हिमवान् मन्दरो मेरुस्त्रैलोक्यम् वासहामरैः शक्यम् भुजाभ्यामुद्धर्तुम् न शक्यो भरतानुजः शक्त्या ब्राह्म्या तु सौमित्रिः स्ताडितोऽपि स्तनान्तरे विष्णोरमीमांस्य भागमात्मानम् प्रत्यनुस्मरत् ततो दानवदर्पघ्नम् सौमित्रिम् देवकण्टकः तम् पीडयित्वा बाहुभ्याम् न प्रभुर्लङ्घने भवत् ततः क्रुद्धो वायुसुतो रावणम् समभिद्रवत् आजघानोरसिक्रुद्धो वज्रकल्पेन मुष्टिना तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः जानुभ्या भगवद्भूमौ चचाल च पपात च आस्यैश्च नेत्रैः श्रवणैः पपातरुधिरम् बहु विघोर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानम् समालभत विसञ्ज्ञम् रावणम् दृष्ट्वा समरे भीमविक्रमम् ऋषयो वानराश्चैवने दुर्देवाश्च सासुराः हनूमानथ तेजस्वी लक्ष्मणम् रावणार्दितम् आनयद्राघवाभ्याशम् बाहुभ्याम् परिगृह्यतम् वायुसूनोः सुहृत्वेन भक्त्या परमया च सः शत्रूणामप्यकम्प्योऽपि लघुत्वमगमत्कपेः तम् युधिनिर्जितं। सा शक्तिः सौमित्रिम् युधि निर्जितम् रावणस्य रथे तस्मिन् स्थानम् पुनरुपागमत् रावणोऽपि महातेजाः प्राप्य सञ्ज्ञाम् महाहवे आददे निशितान् बाणान् जग्राहज महद्धनुः आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः विष्णोर्भागममीमांस्यमात्मानम् निपातितमहावीराम् वानराणाम् महाचमूम् राघवस्तुरणे दृष्ट्वा रावणम् समभिद्रवत् अथै न मनु सङ्क्रम्य हनूमान् वाक्यमब्रवीत् मम पृष्ठम् समारुह्य राक्षसम् शास्तुमर्हसि विष्णुर्यथागरुत्पन्तमारुह्यामरवैरिणम् तच्छ्रुत्वा राघवो वाक्यम् वायुपुत्रेण भाषितम् अथारुरोहसहसा रोह सहसा रथस्थम् रावणम् सङ्ख्ये ददर्शमनुजाधिपः तमालोक्य महातेजाः प्रदुद्रावस रावणम् वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ज्याशब्दमकरोत्तीव्रम् वज्रनिष्पेष निष्ठुरम् रामो राक्षसेन्द्रमुवाचः तिष्ठतिष्ठममत्वम् हि कृत्वा विप्रियमीदृशम् क्वनु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि यदीन्द्रवैवस्वत भास्करान् वा स्वयम्भुवैश्वानर शङ्करान् वा गमिष्यसि त्वम् वा तथापि मेनाद्य गतो विमोक्ष्यसे यश्चैष शक्त्या निहतस्त्वयाद्यगच्छन् स एष रक्षो गणराजमृत्यु स्वपुत्र पौत्रस्य तवाद्य युद्धे एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थान कृतालयानि चतुर्दशान्यात्तवरायुधानि रक्षः सहस्राणि निशूदितानि राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः वायुपुत्रम् महावेगम् वहन्तम् राघवम् रणे रोषेण महताविष्टः काला आजघानशरैर्दीप्तैः कालानलशिखोपमैः राक्षसेनाहवेतस्य ताडितस्यापि सायकैः स्वभावतेजो युक्तस्य भूयस्तेजोऽभ्यवर्धत ततो रामो महातेजा रावणेन कृतव्रणम् दृष्ट्वा प्लवकशार्दूलम् क्रोधस्य वशमे यिवान् तस्यापि सङ्क्रम्य रथम् स चक्रम् शाश्वध्वज छत्र महापताकम् स सारथिम् सा शनि तरसा जघान वज्राशनि सन्निभेन भुजान्तरे व्यूढ वज्रेण मेरुम् भगवानिवेन्द्रः यो वज्रपाता शनि सन्निपातान्यचुक्षुभेनापि चचाल राजा स रामबाणाभिहतो पुरुषार्तश्च चाल चापञ्चमुमोच वीरः तम् विह्वलन्तम् प्रसमीक्ष्य रामः समाददे दीप्तमथार्थचन्द्रम् तेनार्कवर्णम् सहसा किरीटम् चिच्छेद तन्निर्विशाशीविषसन्निकाशम् शान्तार्चिषम् सूर्यमिव प्रकाशम् गतश्रियम् कृत्त किरीटकूटमुवाच रामो युधिराक्षसेन्द्रम् कृतम् त्वया कर्म महत्सु भीमम् हत प्रवीरश्च कृतस्त्वयाहम् तस्मात् परिश्रान्त इति नयामि प्रयाहि जानामि रणर्दितस्त्वम् प्रविश्य रात्रिञ्चरराजलङ्का आश्वस्य निर्याहि रथी च धन्वी तदा बलम् प्रेक्ष्यसि मे रथस्थः स एव मुक्तो हत दर्प हर्षो निकृत्त चापः सहताश्वसूतः शरार्दितो भग्नमहाकिरीटो तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानव देवशत्रौ हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ भूतगणादिशश्च ससागराः सर्षि महोरगाश्च तथैव भूम्यम्बुचराः शे श्रीमद्राणे वाक्युकांडे एक सर्ग